मुद्गलपुराणं खण्डम् एय् धूम्रवर्णचरितम् अध्यायं फ़ोर्टीन् बाणासुरवर्णसम्भवचरितं श्रीगणेशाय नमः श्रीशिव उवाच कृपया वरदानेन गणेशभजनेन च बुद्धिभेदशिवस्यापि बभूव सर्वसंयुधः ततो गिरिसुधायुक्तशङ्करस्कन्दमुख्यकैः गणैः समाययौ सद्यो बाणस्य नगरं पुनः तमागतं समाज्ञाय बाणो हर्षसमन्विधः ध्यात्वा गजाननं देवं ययौ शङ्करसन्निधिं प्रणनामस साष्टाङ्गं शिवं गणसमन्वितं रुरोध पूजयित्वा तं क्षमस्वेदि जगादसः ततस्तं शङ्करो भक्तं समुद्दाप्यप्रसस्वजे जगादमधुरं वाक्यम् अर्शयन् दानवाधिपं श्रीशिव उवाच मा कुरुष्व सन्तुष्टोऽहं समागतः वरान्वृणु महाभाग दास्यामि बलिनन्दन बाणासुर उवाच तव भक्तिं स्थिरां देहि वियोगस्ते न मे भवे तदा महादेव कुरुष्व शिव सर्वदा धेत्युवाज शम्भुस्तं तस्तौ तन्नगरे सदा तदस्तस्मात्सुधा यज्ञे सर्वलक्षणसंयुधा उषानाम्नि महाभागामुपये मे निरुद्धकः तां स्वप्ने तदर्थं कामपीडिता चित्रलेखा तमानीय ददौ तस्यैपदिं स्वकम् मायया यादवान् सम्मोह्यमुमोद ततः परम् एकस्तम्भस्थितां तां स उभयेमे निरुद्धकः तया सम्मोहितोऽत्यन्तं रेमे हर्षसमन्विदः यादवाः संहृतं रात्रौ दृष्ट्वा कामसुदं दृढं शुशुचुः परमोद्विग्ना नले भुस्तद्गतिं च ते प्रद्युम्नेन गणाधीश्य प्रार्थितस्तपसा परः तस्य प्रसादयोगेन नारदस्तत्र तेन सङ्कथितं सर्वं चेष्टितं कामपुत्रजं श्रुत्वा संहर्षिता सर्वे यादवाः प्रबभूविरे तद ईश्वरसंयुक्तं बाणं जेतुं मनोदधे कृष्णो रामेण संयुक्तो यादवैः परमद्युधिः शङ्करस्य भयेनैव भीदं तं प्रत्युवाचः उद्धव कुरुकृष्णत्वं कृष्णत्वं गणेशाराधनं परं तेन विघ्नविहीनस्त्वं भविष्यसि न संशयः शिवस्त्वां संयुगे जेतुमशक्तः प्रभविष्यति तद एकाक्षरस्यैव पुरश्चरणमाकरोद कृष्णो गणपतिं ध्यात्वा यथा शास्त्रं विधानतः यादवैः प्रययौ तत्र यत्र बाणस्थितो भवद शङ्खं दत्मौ तदसोऽपि स शिवो ततः शिवो ददौ तस्मै कवचम् गणपस्य च सामवेदभवं शुद्धम् बाणाय खेदसंयुधः शिवसप्तासुरेणात्र हस्तच्छेदस्य कारणाद् कृष्णः संयुयुधे तेन दैत्येन्द्रेण महाबलः खिन्नम् बाणम् समालोक्य शङ्करो योद्धुमाय यौ कृष्णेन तं समालोक्य कृष्णः सस्मारविघ्नवम् महायुद्धं तयोरासीत् त्रिलोकीनाशसन्निभं शिवस्य वासुदेवस्य मया वक्तुं न शक्यते ततो जृम्भास्त्रवेगेन मोहयित्वा सदाशिवं कृष्णश्चक्रं मुमोचैव बाणस्य भुजः संच्छिदे चक्रेण क्षुरधारेण भुजाश्चिन्नाः समन्ततः अवशिष्टौ भुजौ द्वौ च चक्रं सङ्कुटितं तदः तधः खेदसमायुग्धकृष्णः सस्मार विघ्नवं स्वयमाकाशवाणीं स शुश्राव गणभेरिदं गणेशकवचेनैव रक्षितं शङ्करेण च बाणं हन्तुं रणे कृष्णनक्षमस्त्वं भविष्यसि शिवदत्ता भुजास्तस्य शिवशापेन छेदिताः जन्मस्थौ द्वौ भुजौ प्राज्ञ कवचेन प्ररक्षितौ तदो हर्षेण संयुक्तकृष्णश्चक्रं निवर्त्य च संस्थितः युगे सद्यो वर्जिदो भवम् तदो मयादि ततो मयादिबोधेन ज्ञातं विघ्नेशचेष्टितं कृष्णो ननाम नाम मां तत्र स्वस्वजेहं जनार्दनं यथाविधिविवाहं स चकारदैत्यनायकः अनिरुद्धाय पुत्रीं स्वां ददौ प्रेम परिप्लुदः ततः स्वभवनं कृष्णो ययौ हर्षसमन्वितः बाणोराज्यं परित्यज्य महाकालो बभूवः कैलासे प्रादरुद्धाय पुपूजद्विरदाननं शमीमन्दारदूर्वादिरक्त्रपुष्पैर्विशेषदः सम्भुज्यादौ गणपतिं पश्चाक्षम्भुं महागणः सदा ध्यानपरो भूत्वा तोषयामास तौ परौ शौनक उवाच सुद विघ्नेश्वरस्यैव प्रियोत्यन्तं बभूवः रक्तवर्णकथं तेन तुष्टो भवति सर्वभः रक्तवर्णस्वयं साक्षाद् गणेशो ब्रह्मणां परिः रक्तवस्त्रधरो रक्तचन्दनेन विराजितः रक्तपुष्पधरपूर्णसिन्धुराङ्कविलेपनः रक्तसागरकेलीश वद कारणमुत्तमम् सर्ववर्णमयश्चायं कथमेकं समाश्रुतः तन्नः संशयदं साधो नुदः सर्वज्ञसत्तमसूत उवाच वर्णाः पञ्चसमुद्भूता सृष्ट्यादौ श्वेदश्यामलौ रक्तः पीतस्तथा नीलः सर्ववर्णमयाः पुरा परस्परविभेदेन तथा सम्मीलनेन च अनन्दावर्णकाः प्रोक्ता जानीहि द्विजसत्तम कैस्तपो mm. गणनाथस्य कृतं घोरं तु पञ्चभिः वर्षकेषु सतेतान् स आययौ गणनायकः तं दृष्ट्वा प्रणता सर्वे वर्णाः सन्तुष्टुगुः परं वरान् वव्रुस्तथा विप्रस्वस्वशोभा समन्वितान् अन्ये गणेश्वरं ते दु जगुष्ठं अस्मदीयस्वरूपस्थे भव स्वामिन्नमोस्तुदे वयं तेन गणाध्यक्ष कृतकृत्या भवामहे माया बन्धनहीनास्त्वां भजामहे निरन्तरं तथेति तानुवाचैव गणेशोऽन्तर्दधे तदः वर्णाकर्षयुता सर्वे स्वस्वकार्यरताः पुरा वर्णैः सं सर्वं नानाभेदैः समन्ददः चराचरं विशेषेण वर्णयुक्तं बभूवः काश्यपो गणनाधस्तु नीलवर्णाकृतिं धरः मयूरेशस्तथाश्वेदवर्णयुक्तो बभूवः वरेण्यस्य सुदो रक्तवर्णयुक्तो गजाननः धूम्रवर्णस्तथा श्याम वर्णरूपधरो बभौ हरिद्रा गणपः पीतवर्णाकृतिपरो भवद नानावताररूपै स नानावर्णधरो भवद एवं वरप्रदानेन वर्णाः सर्वे महामुने गणेशाराधने सक्तास्वस्वकार्यपरायणाः तदोरक्तेन वर्णेन पुनस्तप्तं तपो महद निराहारेण विप्रश ध्यात्वा हृदि गजाननं सहस्रवर्षे च गदे गणपस्थं समाययव वरान् दातुं महाभागं सननाम गणाधिपं पूजयित्वा प्रदुष्टाव रक्तवर्णः प्रहर्षिदः स्तोत्रैर्नानाविधैस्तम्बु गणेश्यैर्गणपप्रियैः ततः प्रसन्नभावेन विघ्नेशस्तमुवाचः वरान् वृणुमहाभाग रक्तवर्णहृदीप्सिदान् रक्तवर्ण उवाच रक्तवर्णस्वरूपस्थो भव त्वं गणनायक सदा रक्तप्रियो नाथ नानावर्णेषु मानद तेनाहं सर्ववर्णेषु श्रेष्ठो भावीनसंशयः सततं कृतकृत्यश्च तव सन्निधिसंस्थितः तथेदि तमधोक्त्वा सौ गणेशोऽन्तर्दधे स्वयं तदादि वेदशास्त्रेषु रक्तवस्तुप्रियो भवत इदं बाणचरित्रं यः शृणुयाद्वर्णसम्भवं पठेत्तस्य गणाधीशो वरदश्च भविष्यति ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते बाणासुरवर्ण सम्भवचरितं नाम चतुर्दशोऽध्यायः ओ